श्री श्रीगुरुभ्यो नमः हरिः ओम् श्रीमहागणाधिपतये नमः ध्यानम् कूजन्तम् रामरामेति मधुरम् मधुराक्षरम् आरुह्यकविताशाखाम् वन्दे वाल्मीकिकोकिलम् वाल्मीकेर्मुनिसिंहस्य कविता वनचारिणः शृण्वन् रामगदानादम् कोनयाति परम् गतिम् वाल्मीकिगिरिसम्भूता रामसागरगामिनी पुनातिभुवनम् पुण्यम् रामायणमहानदी यस्य वाङ्मय सर्वस्वम् मधुरम् मधुसिञ्चितम् पावनम् पावकम् शश्वत् वन्दे तम् ऋषिकोकिलम् रामायणम् चादिकाव्यम् यस्य सद्भक्तिसुन्दरम् परम् कवीनामाधारम् वन्दे वाङ्मयविग्रहम् राम रामेति रामेति रामनाममृते सदा रममानं रञ्जयन्तम् नमामि कविकोकिलम् त्रयीस्वरो यत्र भाति पञ्चमस्वररूपतः तम् नौमि श्रुतिसौभाग्यमञ्जुलम् ऋषिकोकिलम् गुर्वनुग्रहसम्पूतम् शिष्यानुग्रहतत्परम् वाल्मीकि ऋषिपुत्रम् तम् वन्दे कोकिलं। राम वाल्मीकिकोकिलम् रामलक्ष्मणसीताख्यादिव्यसौन्दर्यभामकम् स्वयम् प्रभा प्रभावज्ञम् प्रभा नमामि ऋषिपुङ्गवम् प्राचीनाग्रकुशासीनम् रामवृत्तान्तभावुकम् श्रीरामानुजसौभाग्यसम्पद्वर्णनपण्डितम् भरताग्रजसौन्दर्यदर्शकम् शास्त्रकोविदम् वेदशास्त्रपुराणौघनिनम् नौमिकोकिलम् श्रुतिस्मृतिपुराणानाम् सौन्दर्योपासकम् ऋषिम् न मामवल्मीकाजातम् कविं सुस्वरकोकिलम् वृषभः पञ्चमश्चैव स्वरौ रामायणात्मना आविर्भूतौ यन्मुखाच्च वन्देतम् स्वरविग्रहम् श्रीवाल्मीकिमहर्षि अष्टोत्तरशतनामावळिः ओम् जगद्गुरवे नमः सदावन्द्याय नमः ॐ पुराणऋषये नमः ॐ आदिकवये नमः ॐ महाशिल्पिने नमः ॐ कुलपतये नमः ॐ देशिकाय नमः ॐ श्रुतिसागराय नमः ॐ कविकुलगुरवे नमः ॐ दीर्घतपोविभूषिताय नमः ं शर्वशास्त्रकलाकोविदाय नमः ॐ वाक्यविशारदाय नमः ॐ वाल्मीकये नमः ॐ वाल्मीकाय नमः ॐ मैत्रावरुणाय नमः ॐ प्रभवे नमः ॐ वल्मीकप्रभवाय नमः ॐ वृक्षाय नमः ॐ रामरज्ञाय नमः ॐ वल्मीकगृहाय नमः ॐ मन्त्रकृते नमः ओम् छन्दसां सृष्टे नमः ॐ काव्यरसज्ञाय नमः ॐ कवीन्द्रवे नमः ॐ काव्यतत्त्वज्ञाय नमः ॐ वेदश्रुतिहृदयाभिज्ञाय नमः ॐ शक्रायुधमिव वक्राय नमः म् सीताद्रौहृदरक्षकाय नमः ओम् श्रीराममन्त्राञ्चितहृदयाय नमः ॐ नारदशिष्याय नमः ओम् श्रीरामदिव्यमन्त्रस्थाय नमः ओम् घुविश्रामशाखिने नमः ओम् जनकदशरथगुरवे नमः ॐ पुराणब्रह्मवादिने नमः ओम् शब्दब्रह्मणि प्रबुद्धाय नमः ओम् आविर्भूतशब्दज्योतिषे नमः ओम् कविकाव्यजगत्पतये नमः ओङ्कारदिव्यनादाय नमः ॐ वेदसौन्दर्यरञ्जिताय नमः ॐ योगीन्द्राय नमः ॐ चतुरास्यरूपिणे नमः ॐ कुशिने नमः ॐ ब्रह्मावताराय नमः ॐ तपस्विने नमः ॐ मन्त्रद्रष्टे नमः ओम् मुनिसिंहाय नमः ॐ धर्मवीराय नमः ॐ महोग्रधिये नमः ॐ प्राचेतसाय नमः ॐ भार्गवाय नमः ॐ भावितात्मने नमः ओम् मधुस्वराय नमः ॐ वरेण्यभर्गाय नमः ॐ मधुमयभणितीनाम् मार्गदर्शिने नमः ॐ काव्यमार्गप्रवर्तकाय नमः ॐ महामुनये नमः ॐ वल्मीकतेजसे नमः ॐ महात्मने नमः ॐ चरितौ रताय नमः ॐ कवितावनचारिणे नमः ॐ भगवते नमः ॐ मुनिपुङ्गवाय नमः ॐ महाप्राज्ञाय नमः ॐ शोधितात्मने नमः ॐ विरिञ्चि नमः ॐ नियतेन्द्रियाय नमः ॐ श्रुतिविरुद्धवादाय नमः श्रुतिमार्गोपदेशिकाय नमः ॐ तमसा सुस्नाताय नमः ॐ तमसा तीरसञ्चारिणे नमः ॐ कारुण्यरसविग्रहाय नमः ॐ भगवत्सुन्दरहनुमत्तत्त्वविदे नमः ओम् सुरसासिंहिकास्वरूपदर्शकाय नमः ॐ यज्ञतत्त्वोपदेशिकाय नमः ओम् स्वयम्प्रवृत्तकवितावैभवाय नमः ओम् श्रुतिप्रियाय नमः ओम् श्रीपुष्पगिरिस्वरूपभावनाय नमः ओम् बालामन्त्रोपासकाय नमः ओम् सीतामहच्चरितवर्णकाय नमः ॐ पौलश्च नमः म् सदा मधुरभाषिणे नमः ओम् शोकवते नमः ओम् आचन्द्रार्कविराजत्कीर्तिसौभाग्यभूषिताय नमः ओम् रामाय नमः मंत्रदेशिकाय श्रीमद् रामायणी गङ्गाप्रसूतये नमः ओम् राम रामेति सदा कूजन्मधुरषट्पदाय नमः सरस्वतीमधुस्यन्दमधुरामृतवर्षकाय नमः ओम् सत्यवाचे नमः ॐ क्रौञ्चद्वन्द्ववियोगोद्भुतवाङ्मधवे नमः ओम् उदारवृत्तार्थपदमहाकाव्यशुशोभिताय नमः ओम् हिरण्यहरिणाय नमः ओम् सीतावेदश्रुतिपदानुगाय नमः ॐ रामायणशरीराय नमः ओम् जनप्रियाय नमः ओम् श्रीरामप्रतिष्ठितहृदयाय नमः ओम् चित्रकूटाय नमः ओम् चित्रकूटवासिने नमः ओम् अहल्या गौतमकथारसज्ञाय नमः ओम् सन्ध्याविनोदिने नमः ओम् कुशलवप्रियाय नमः ओम् श्रुतिसौन्दर्यविग्रहाय नमः ॐ स्रस्तास्तविद्याबोधकाय नमः ॐ वेदारण्यवासिने नमः ओम् हनुमत्पदसेवकाय नमः ॐ मानिषादमनीषिणे नमः ओम् ओम स्वयम्प्रभागुहाभिज्ञाय नमः ॐ वाल्मीकिकोकिलाय नमः श्रीमहर्षिवाल्मीकये नमः श्रीवाल्मीकिकोकिलाय नमः अष्टोत्तरशतपूजाम् समर्पयामि मङ्गलम् कोसलेन्द्राय महनीय गुणात्मने चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् गृहे गृहे महर्षिः वाल्मीकिः पूज्यताम् पदे पदे आराध्यताम् भारतीयानाम् हृदयानि भारतावनिश्च महर्षिवाल्मीकाश्रमायन्ताम् शुभम् भवतु नमामि वेदमातरम् मङ्गलश्रीविराजिताम् हरिः ओम् सत्सत्